मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतं सकं विलासिलोकरक्षकम् अनायकैकनायकं विनाशिते भदैत्यकं न ताशुभाशुनाशकं न मामितं विनायकं न न मत्सुरादिनिर्झरं न ताधिकापदुद्धरं सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरं समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं दरेतरोतरं वरं वरे भवक्त्रमक्षरं कृपाकरम् क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतं नमस्करोमि भास्वरम् अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् प्रपञ्चदाशभीषणं धनञ्जयादिभूषणं कपोलदानवारणं भजे पुराणवारणम् नितान्तकान्तिदन्तकान्तमन्तकान्तकात्मजम् अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनं हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेकमेव चिन्तयामि सन्ततं महागणेशपञ्चरत्नमादरेण योऽन्वहम् प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् अरोगताम् सुसाहितीम सुपुत्रताम सुपुत्रताम् समाहितायुरष्टभूतिमभ्युपैति सोचिराति ओम। हे स्वामिनाथ करुणाकर दीनबन्धो श्रीपार्वतीशः मुखपङ्कज पद्मबन्धो श्रीशादिदेवगणपूजितपादपद्मा वल्लीः सनाथ मम देहि करावलम्बौ देवाधिदेवसुत देवगणाधिनाथ देवेन्द्रवन्द्या मृदुपङ्कज मञ्जुपादा देवर्षि नारदमुनीन्द्र सुगीतकीर्तेः वल्ली ए सनाथ मम देहि करावलम्बम् नित्यान्नदाननिरताखिलरोगहारिल् निभाग्यप्रदाना परिपूरितभक्तकामा श्रुत्यागमप्रणववाच्य निजस्वरूपा वल्ली सनाथ मम देहि करावलम्बं क्रौञ्चा सुरेन्द्रा परिखण्डनशक्तिशूला चापादिशस्त्रपरिमण्डित दिव्यपाणे श्रीकुण्डलीषा धृततुण्डशिखीन्द्रवाहा वल्लीसनाथ मम देहि करावलम्बं देवाधिदेवरथमण्डलमध्यमेत्या देवेन्द्रपीठनगरं दृढचापहस्ता शूरं निहत्या सुरकोटिभिरीड्यमाना बल्लीः सनाथ मम देहि करावलम्बम् हीरादिरत्नरवैरुक्तकिरीटहारा केयूरकुण्डललसत्कवचाभिरामा हे वीरतारक जयामरवृन्दवन्द्या वल्ली सनाथ मम देहि पञ्चाक्षरादिमनुमन्त्रितगाङ्गतोयैः पञ्चामृतैः प्रमुदितेन्द्रमुखैः मुनीन्द्रैः पट्टाभिषिक्तहरियुक्तपरासनाथ वल्लीसनाथ मम देहि करावलम्बं श्रीकार्तिकेया करुणामृतपूर्णदृष्ट्या कामाधिरोगकलुषीकृतदुष्टचित्तम् सिक्त्वा तु मामवकलानिधिकोटिकान्तवल्ली सनाथमम देहि करावलम्बम् सुब्रह्मण्याष्टकम् पुण्यम् ये पठन्ति द्विजोत्तमाः ते सर्वे मुक्तिमायान्ति सुब्रह्मण्यप्रसादतः सुब्रह्मण्याष्टकमिदम् प्रातरुत्थाय यः पठेति कोटिजन्म कृतम् पापम् तत्क्षणादेव नश्यती ओ श्रीरामसौमित्रिजटाजुवेदा षडाननादित्यकुजार्चिताय श्रीनीलकण्ठाय दयामयाय श्रीवैद्यनाथाय नमः शिवाय गङ्गाप्रमाघेन्दुजटाधराय त्रिलोचनाय स्मरकालहन्त्रे समस्तदेवैरभिपूजिताय शिवैद्यनाथाय नमः शिवाय भक्तप्रियाय त्रिपुरान्तकाय पिनाकिने दुष्टहराय नित्यम् प्रत्यक्षलीलाजमनुष्यलोके शिवैद्यनाथाय नमः शिवाय प्रभूतपादादिसमस्तरोग प्रणाशकर्त्रे मुनिवन्दिताय प्रभाकरेन्दग्निविलोचनाय शिवैद्यनाथाय नमः शिवाय वाक्श्रोत्रनेत्राङ्घ्रिभिहीनदन्तोः वाक्श्रोत्रनेत्राङ्घ्रिमुखप्रदाय कुष्ठादिसर्वोन्नतरोगहन्त्रे शिवैद्यनाथाय नमः शिवाय वेदान्तवेद्याय जगन्मयाय योगीश्वरध्येयपदाम्बुजाय त्रिमूर्तिरूपाय सहस्तनाम्ने शिवैद्यनाथाय नमः शिवाय स्वतीर्थमृद्भस्मभृदङ्गभाजाम् पिशाच दुःखार्तिभजापहाय आत्मस्वरूपाय शरीरभाजाम् शिवैद्यनाथाय नमः शिवाय श्रीनीलकण्ठाय वृषध्वजाय स्रग्गन्धभस्माद्यभिशोभिताय सुपुत्रदारादिसुभग्यदाय श्रीवैद्यनाथाय नमः शिवाय बालाम्बिकेश वैद्येश भव रोगहरेति जपेन्नामत्रयम् नित्यम् महारोगनिवारणम् ओ ब्रह्ममुरारिसुरार्जितलिङ्गम् निर्मलभाषितशोभितलिङ्गम् जन्मजदुःखविनाशकलिङ्गम् तत्प्रणमामि सदा शिवलिङ्गम् देवमुनिप्रवरार्चितलिङ्गम् कामदहम् करुणाकरलिङ्गम् रावणदर्पविनाशनलिङ्गम् तत्प्रणमामि सदा शिवलिङ्गम् सर्वसुगन्धिसुलेपितलिङ्गम् बुद्धिविवर्धनकारणलिङ्गम् सिद्धसुरासुरवन्दितलिङ्गम् तत्प्रणमामि सदा शिवलिङ्गं कनकमहामणिभूषितलिङ्गं फणिपतिवेष्टितशोभितलिङ्गं दक्षसुयज्ञविनाशनलिङ्गम् तत्प्रणमामि सदा शिवलिङ्गं कुङ्कुमचन्दनलेपितलिङ्गं पङ्कजहारसुशोभितलिङ्गं सञ्चितपापविनाशनलिङ्गं तत्प्रणमामि सदा शिवलिङ्गम् देवगणार्चितसेवितलिङ्गं वानवर्भक्तिप्रवेशकलिङ्गं दिनकरकोटिप्रभाकरलिङ्गम् तत्प्रणमामि सदा शिवलिङ्गम् अष्टदलोपरिवेष्टितलिङ्गं सर्वसमुद्भवकारणलिङ्गम् अष्टदरिद्रविनाशकलिङ्गं तत्प्रणमामि सदा शिवलिङ्गम् सुरगुरु सुरवरपूजितलिङ्गम् सुरवनपुष्पसदार्चितलिङ्गम् परात्परं परमात्मकलिङ्गम् तत्प्रणमामि सदा शिवलिङ्गम् ॐ नित्यानन्दकरी वरा भजकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्ष माहेश्वरी प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी भिक्षान् देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी मुक्ताहारविलम्बमानविलसति वक्षोजकुम्भान्तरी काश्मीरागरुवासिताङ्कुरशिखरी काशीपुराधीश्वरी भिक्षान् देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी योगानन्दकरी रिभुक्षय करी, करी धर्मैकनिष्ठाकरी चन्द्रार्कनलभासमानलहरी त्रैलोक्यरक्षा हरी सर्वैश्वर्यकरी तपःफलकरी काशीपुराधीश्वरी भिक्षान् देहि कृपा वलम्बन करि मातान्नपूर्णेश्वरी कैलासाचलकन्दरालय करी गौरीशुभाशाङ्करी कौमारीनिगमार्थगोचरकरी ओङ्कार बीजाक्षरी मोक्षद्वार कपाटपाटन करी काशीपुराधीश्वरी भिक्षान् देहि कृपावलम्बन दिर्श्या दिर्श्या दिर्श्या विभूति वाहनकरी, मातान्नपूर्णेश्वरी दृश्यादृश्य विभूतिवाहनकरी ब्रह्माण्डभाण्डोदरी लीलानाटकसूत्रकेल न करी विज्ञानदीपाङ्कुरी श्रीविश्वेश मनःप्रसादन करी काशीपुराधीश्वरी भिक्षान् देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी समस्त आदिक्षान्तसमस्तवर्णनकरी शम्भोऽस्त्रिभावाकरीः काश्मीरा त्रिपुरेश्वरी त्रिनयनी विश्वेश्वरी सर्वरी स्वर्गद्वार कवाटपाटनगरी काशीपुराधीश्वरी भिक्षान् देहि कृपावलम्बनगरी मातान्नपूर्णेश्वरीः उर्वी सर्वजनेश्वरी जयकरी माता कृपासागरी वेणीनीलसमानकुन्तलनरी नित्यान्नदानेश्वरी साक्षान्मोक्षकरी सदाशुभकरी काशीपुराधीश्वरी भिक्षान् देहि कृपावलम्बनकरी माता अन्नपूर्णेश्वरी देवी सर्वविचित्ररत्नरचिता दाक्षायणी सुन्दरी वामास्वादुपयोधरप्रियकरी सौभाग्यमाहेश्वरी भक्ताभीष्टकरी सदा शुभकरी काशीपुराधीश्वरी भिक्षान्देहि कृपावलम्बनकरी कातान्नपूर्णेश्वरी चन्द्रार्कानलकोटिकोटिसदृशी चन्द्रांशु बिम्बाधरी चन्द्रार्काग्निसमानकुण्डलधरी चन्द्रार्कवर्णेश्वरी मालाः पुस्तकपाशाङ्कुशस्त्री काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी क्षत्रत्राणकरी महाभयकरी माता कृपासागरी सर्वानन्दकरी सदाशिवगरि विश्वेश्वरी श्रीधरी दाक्षाक्रान्तगरी निरामयकरी काशीपुराधीश्वरी भिक्षान्देहि कृपावलम्बनकरी माता अन्नपूर्णेश्वरी अन्नपूर्णे सदा पूर्णे शङ्करप्राणवल्लभे ज्ञानवैराग्यसिद्ध्यर्थम् भिक्षाम् देहि च पार्वती माहता च पार्वती देवी पिता देवो महेश्वरः बान्धवाः शिवभक्ताश्च स्वतेजो भुवनत्रयम् लोकवीरं महापूज्यं सर्वरक्षाकरं विभुं पार्वतीहृदयानन्दौ शाहस्तारं प्रणमाम्यहम् विप्रपूज्यं विश्ववन्द्यं विष्णुशम्भो प्रियं सुतं क्षिप्रसादनिरतं शाहस्तारं प्रणमाम्यहम् मत्तमातङ्गगमनं कारुण्यामृतपूरितं सर्वविघ्नहरं देवं शाहस्तारं प्रणमाम्यहम् अस्मत्कुलेश्वरं देवम् अस्मत्शत्रुविनाशनम् अस्मदिष्टप्रदातारौ शाहस्तारम् प्रणमाम्यहम् पाण्डे च वंशतिलकम् केरले केलिविग्रहम् आर्तत्राणपरम् देवम् शाहस्तारम् प्रणमाम्यहम् त्र्यम्बकपुराधीशम् गणाधिपसमन्विदम् गजारूढमहम् वन्दे शाहस्तारम् प्रणमाम्यहम् शिववीर्यसमुद्भूतम् श्रीनिवासतनोद्भवम् शिखिवाहानुजं वन्दे शाहस्तारम् प्रणमाम्यहम् यस्य धन्वन्तनिर्माता पिता देवो महेश्वरः तं शास्तामहं वन्दे महारोगनिवारणम् भूतनाथसदानन्दा सर्वभूतदयापरा रक्ष रक्षमहाबाहो नमो नमः ॐ सुग्रीवमित्रम् परमं पवित्रम् सीताकलत्रम् नवमेघगात्रम् कारुण्यपात्रं शतपत्रनेत्रम् श्रीरामचन्द्रम् सततं नमामि संसारसारं निगमप्रचारम् धर्मावतारं हृदि भूमिभारम् सदा निर्विकारं सुखसिन्धुसारं श्रीरामचन्द्रं सददं नमामि लक्ष्मीविलासं जगतो निवासम् भूदेव वासं शरदिन्दुहासं लङ्काविनाशं भुवनप्रकाशम् श्रीरामचन्द्रं सददं नमामि मन्दारमालं वचने रसालौ गुणैर्विशालं हतसप्तसालौ क्रव्यादकालं सुरलोकपालं श्रीरामचन्द्रं सततं नमामि वेदान्तज्ञानं सकले समानं कृदारिमानं धृतसप्रदानं गजेन्द्रयानं विकलावसानम् श्रीरामचन्द्रं सतदं नमामि श्यामाभिरामं नयनाभिरामं गुणाभिरामं भचसाभिरामं विश्वप्रणामं कृतभक्तकामं श्रीरामचन्द्रं सतदं नमामि लीलाशरीरं रणाङ्गधीरं विश्वैकवीरं रघुवंशहारम् गम्भीरनाथं जित सर्ववातं श्रीरामचन्द्रं सततं नमामि कलेतिपीतं सुजने विनीतम् सामोपगीतं स्वकुले प्रतीतं ताराप्रगीतं भजनात्वयतीतं श्रीरामचन्द्रं सततं नमामि ब्रह्मादिवेदसेव्याय ब्रह्मण्याय जा महात्मने जानकीप्राणनाथाय जा रघुनाथाय जा मङ्गलम् ओ करारविन्देन पदारविन्दम् मुखारविन्दे विनिवेशयन्तम् वटस्य पत्रस्य पटेशयानम् बालम् मुकुन्दम् मनसा स्मरामि संहृत्य लोकान् वटपत्रमध्ये शयानमाद्यन्तविहीनरूपम् सर्वेश्वरम् सर्वहितावतारम् बालम् मुकुन्दम् मनसा स्मरामि इन्दीवरश्यामल कोमलाङ्गम् इन्द्रादिदेवार्चितपादपद्मम् सन्तानकल्पद्रुममाश्रितानाम् बालं मुकुन्दं मनसा स्मरामि लम्बालकं लम्बितहारयष्टिं शृङ्गारलीलाङ्कितदन्तपङ्क्तिं बिम्बाधरं चारुविशालनेत्रम् बालं मुकुन्दं मनसा स्मरामि शिखे निधायादित्यपयोदधीति बहिर्गतायां व्रजनायिकायाम् भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुन्दं मनसा स्मरामि कलिन्दजान्तस्थितकालीयस्य फणाङ्घ्रे नटनप्रियन्तं तत्पुच्छहस्तं शरदिन्दुवक्त्रं बालं मुकुन्दं मनसा स्मरामि उलूखले बद्धमुधारचौर्यम् उत्तुङ्गयुग्मार्जुनपङ्कलीलम् उत्फुल्लपद्मायतचारुनेत्रम् बालं मुकुन्दं मनसा स्मरामि आलोक्यमातुर्मुखमादरेण स्तन्यं पिबन्तं सरसीरुहाक्षं सच्चिन्मयं देवमनन्तरूपं बालं मुकुन्दं मनसा स्मरामि ओम् सुदे वसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम् अतसी पुष्पसङ्काशं हारनूपुरशोभितं रत्नकङ्कणकेयूरं कृष्णं वन्दे जगद्गुरुं कुटिलालकसंयुक्तं पूर्णचन्द्रनिभाननं विलसत्कुण्डलधरम् कृष्णं वन्दे जगद्गुरुं मन्दारगन्धसंयुक्तं चारुहासं चतुर्भुजं बर्हि पिञ्छावचूडाङ्गं कृष्णं वन्दे ये जगद्गुरुम् उत्फुल्लपद्मपत्राक्षं नीलजीमूतसन्निभं यादवानां शिरोरत्नं कृष्णं वन्दे जगद्गुरुं रुक्मिणी केलिसंयुक्तं पीताम्बरसुशोभितम् अवाप्त तुलसीगन्धं कृष्णं वन्दे जगद्गुरुं गोपिकानां कुचद्वन्द्व कुङ्कुमाङ्कितमक्षसं श्रीनिकेतमो महेश्वासं कृष्णं वन्दे जगद्गुरुं श्रीवत्साङ्गं महोरस्कं वनमालाभिराजितम् शङ्खचग्रधरं देवं कृष्णं वन्दे ये कृष्णाष्टकम् इदं पुण्यं प्रातरुत्थाय जः पठेति कोटिजन्म कृतं पापं स्मरणात् तस्य नश्यती ॐ अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् वचनं मधुरं चरितं मधुरं वसनं मधुरं बलितं मधुरं चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरं वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पाहदौ मधुरौ नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरं गीतं मधुरं पीहितं मधुरम् भुक्तं मधुरं सुप्तं मधुरं रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरं करणं मधुरं तरणं मधुरं हरणं मधुरं शरणं मधुरं वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरं गुञ्जामधुरा महला मधुरा यमुना मधुरा बीचीमधुरा सलिलं मधुरं कमलं मधुरं मधुराधिपदेरखिलं मधुरं गोपीमधुरा लीहिला मधुरा युक्तं मधुरं भुक्तं मधुरं दृष्टं मधुरं शिष्टं मधुरं मधुराधिपदेरखिलं मधुरं गोबा मधुरा गाहभो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा दलितं मधुरं फलितं मधुरम् मधुराधिपतेरखिलम् मधुरम् ओम् उद्यद्भानुसहस्रकोटिसदृशाम् केयूरहारोज्ज्वलाम् बिम्बोष्ठीम् स्मितदन्तपङ्क्तिरुचिराम् पीताम्बरालङ्कृताम् विष्णुब्रह्मसुरेन्द्रसेवितपदाम् तत्त्वस्वरूपाम् शिवाम् मीनाक्षीम् प्रणतोऽस्मि सन्ततमहम् कारुण्यवारां निधिं मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभां शिञ्जन्नु पुरकिङ्किणिमणिधरां पुष्पप्रभा भासुरां सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेविताम् मीनाक्षीं प्रणतोऽस्मि सन्ततमहम् कारुण्यवारां निधिम् श्रीविद्याम् शिववामभागनिलयाम् ह्रीङ्कारमन्त्रोज्ज्वलाम् श्रीचक्राङ्कितबिन्दुमध्यवसतिं श्रीमत्सभानायकीं श्रीमत्षण्मुख विघ्नराज जननीम् श्रीमज्जगन्मोहिनीम् मीनाक्षीम् प्रणतोऽस्मि सन्ततमहम् कारुण्यवराम् निधिम् श्रीमती सुन्दरनायकीम् भयहराम् ज्ञानप्रदाम् निर्मलाम् श्यामाभाम् कमलासनार्चितपदाम् नारायणस्यानुजाः वीणा वेणुमृदङ्गवाद्यरसिकां नानाविराडम्बिकां मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारां निधिं नानायोगिमुनीन्द्रहृद्यवसतिं नानार्थसिद्धिप्रदां नानाः पुष्पविराजिताङ्घ्रियुगलां नारायणे नार्चिताम् नादब्रह्ममयीम् परात्परतराम् नानार्थतत्त्वात्मिकाम् मीनाक्षीम् प्रणतोऽस्मि सन्ततमहम् कारुण्यवारां निधिम् ॐ नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय नित्याय शुद्धाय दिगम्बराजा तस्मै नकाराय नमः शिवाय मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय मन्दारपुष्प बहुपुष्पसुपूजिताय तस्मै मकाराय नमः शिवाय शिवाय गौरी वदनाब्जबाल सूर्याय दक्षाध्वरनाशकाय श्रीनीलकण्ठाय वृषध्वजाय तस्मै शिकाराय नमः शिवाय वसिष्ठकुम्भोद्भवगौतमार्य मुनिन्ददेवार्चितशेखराय चन्द्रार्कवैश्वानरलोचनाय तस्मै बकाराय नमः शिवाय यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय दिव्याय देवाय दिगम्बरायाः तस्मै यकाराय नमः शिवाय पञ्चाक्षरमिदम् पुण्यम् यः पठेति शिवसन्निधौ शिवलोकमवाप्नोति शिवेन सह मोदते ओम् रुद्रम् पशुपतिम् स्थाणुम् नीलकण्ठम् उमापतिम् नमामि शिरसा देवम् किन्नोः मृत्युः करिष्यति कालगण्ठं कालमूर्तिं कालाग्निं कालनाशनौ नमामि शिरसादेवं किन्नोः मृत्युः करिष्यति नीलगण्ठं विरूपाक्षं निर्मलं निलयप्रभं नमामि शिरसादेवं किन्नोः मृत्युः करिष्यति वामदेवं महादेवं लोकनाथौ जगद्गुरुं नमामि शिरसा देवं खिन्नोः मृत्युः करिष्यति देवदेवं जगन्नाथं देवेः शं वृषभध्वजं नमामि शिरसा देवं खिन्नोः मृत्युः करिष्यति त्यक्षं चतुर्भुजं शान्तं जटाः मकुटधारिणं नमामि शिरसादेवम् खिन्नो मृत्युः करिष्यति भस्मोद्धूलितसर्वाङ्गम् नागाःभरणभूषितम् नमामि शिरसा देवं खिन्नोः मृत्युः करिष्यति अनन्तम् अव्ययम् शान्तम् अक्षमालाधरं हरम् नमामि शिरसा देवं खिन्नोः मृत्युः करिष्यति आनन्दम् परमम् नित्यम् नमामि शिरसा देवं खिन्नोः मृत्युः करिष्यति अर्धनारीश्वरं देवं पार्वतीप्राणनायकं नमामि शिरसा देवं खिन्नोः मृत्युः करिष्यति प्रलयस्थितिकर्तारम् आदिकर्तारमीश्वरं नमामि शिरसा देवं खिन्नोः मृत्युः करिष्यति व्योमकेशं विरूपाक्षम् चन्द्रार्धकृतशेखरम् नमामि शिरसादेवम् किन्नोः मृत्युः करिष्यति गङ्गाधरम् शशिधरम् शङ्करम् शूलपाणिनम् नमामि शिरसादेवम् किन्नोः मृत्युः करिष्यति स्वर्गापवर्गदातारम् सृष्टिस्थित्यन्तकारणम् नमामि शिरसादेवम् किन्नोः मृत्युः करिष्यति कल्पायुर्देहि मे पुण्यम् यावदायुररोगताम् नमामि शिरसा देवम् किन्नोः मृत्युः करिष्यति शिवेशानम् महादेवम् वामदेव सदाशिवम् नमाहामि शिरसा देवम् किन्नो मृत्युः करिष्यति ओम् आदिलक्ष्मी नमस्तेऽस्तु परब्रह्मस्वरूपिणी यशो देहि धनम् देहि सर्वकामांश्च देहि मे सन्तानलक्ष्मी नमस्तेऽस्तु पुत्रपौत्रप्रदायिनि पुत्रान् देहि धनं देहि सर्वकामांश्च देहि मे विद्यालक्ष्मी नमस्तेऽस्तु ब्रह्मविद्यास्वरूपिणि विद्यां देहि कलं देहि सर्वकामांश्च देहि मे ये धनलक्ष्मी नमस्तेऽस्तु सर्वदारिद्र्यनाशिनि धनं देहि श्रियं देहि सर्वकामांश्च देहि मे धान्यलक्ष्मी नमस्तेऽस्तु सर्वाभरणभूषिते धान्यम् देहि धनम् देहि सर्वकामांश्च देहि मे मेधालक्ष्मी नमस्तेऽस्तु कलिकल्मषनाशिनि प्रज्ञाम् देहि श्रियम् देहि सर्वकामांश्च देहि मे गजलक्ष्मी नमस्तेऽस्तु सर्वदेवस्वरूपिणि अश्वंश्च गोकुलम् देहि सर्वकामांश्च देहि मे वीरलक्ष्मी नमस्तेऽस्तु पराशक्तिस्वरूपिणि वीर्यम् देहि बलम् देहि सर्वकामांश्च देहि जयलक्ष्मी नमस्तेऽस्तु सर्वकार्य जयप्रदे जयम् देहि शुभं देहि सर्वकामांश्च देहि भाग्यलक्ष्मी नमस्तेऽस्तु सौमाङ्गल्यविवर्धनि भाग्यम् देहि दे। श्रियं सर्वकाम देहि सर्वकामांश्च देहि मे कीर्तिलक्ष्मी नमस्तेऽस्तु विष्णुपक्षस्थलस्थिते कीर्तिम् देहि श्रियं देहि सर्वकामांश्च देहि मे आरोग्यलक्ष्मी नमस्तेऽस्तु सर्वरोगनिवारिणि आयुर्देहि श्रियं देहि सर्वकामांश्च देहि मे सिद्धलक्ष्मी नमस्तेऽस्तु सर्वसिद्धिप्रदायिनि सिद्धिम् देहि श्रियं देहि सर्वकामांश्च देहि मे सौन्दर्यलक्ष्मी नमस्तेस्तु सर्वालङ्कारशोभिते रूपम् देहि श्रियं देहि सर्वकामांश्च देहि मे साम्राज्यलक्ष्मी नमस्तेऽस्तु मुक्तिमुक्तिप्रदायिनि मोक्षं देहि श्रियं देहि सर्वकामांश्च देहि मे मङ्गले मङ्गलाधारे माङ्गल्ये मङ्गलप्रदे मङ्गलार्थ मङ्गलेशि माङ्गल्यं देहि मे सदा सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्येत्यम्बके देवि ाराहायणि नमोस्तु ते शुभम् भवतु कल्याणि आयुः आरोग्यसम्पदाम् मम शत्रू विनाशाय दीपज्योती नमोस्तु ते ॐ नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते शङ्खचक्र गदाहस्ते महालक्ष्मी ते नमस्ते गरुढारूढे डोला डोलासुरभयङ्करि सर्वपापहरे देवि महालक्ष्मीनमोऽस्तु ते सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि सर्वदुःखहरे देवि महालक्ष्मीनमोऽस्तु ते सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि मन्त्रमूर्ते सदा देवि महालक्ष्मीनमोऽस्तु ते आहत्यन्तरहिते देवि आदिशक्ती महेश्वरि योगजे योगसम्भूते महालक्ष्मीनमोऽस्तुते स्थूलसूक्ष्मे महारौद्रे महाशक्ती महोदरे महापापहरे देवि महालक्ष्मीनमोऽस्तु ते पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि परमेशि जगन्मातः महालक्ष्मी नमोऽस्तु ते श्वेताम्बरधरे देवि नानाहालङ्कारभूषिते जगत्स्थिते जगन्मातः महालक्ष्मी नमोस्तु ते महालक्ष्मी, महालक्ष्मी अष्टकस्तोत्रम् यः पठेति भक्तिमान्नरः सर्वसिद्धिम् अवाप्नोति राज्यं प्राप्नोति सर्वदा एककाले पठेन्नित्यम् महापापविनाशनम् द्विकाले यः पठेन् नित्यम् धनधान्यसमन्वितः त्रिकालम् यः पठेन् नित्यम् महाशत्रुविनाशनम् महालक्ष्मीर्भवेन्नित्यम् प्रसन्ना वरदाशुभा ॐ अम्बाशाम्भवि चन्द्रमौळिरबलापर्णा उमा पार्वती काळीकैमवती शिवा त्रिनयनी कात्याजनी भैरवी सावित्री नवयौवना शुभकरी साम्राज्यलक्ष्मीप्रदा चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी देवता त्रिभुवन आनन्दसन्दायिनी वाणी पल्लवपाणि वेणुमुरलि गानप्रिया लोलिनी कल्याणी उडुराज बिम्बवदना धूम्राक्षसंहारिणी चिद्रूपीः परदेवता भगवती श्रीराजराजेश्वरी अम्बा नूपुररत्नकङ्कणधरी केयूरहारावळी जाती चम्पकवैजयन्ती लहरी ग्रैवेयकैरञ्जिता वीणा वेणुमृदङ्गवाद्यरसिका वैष्णवी वीरासना संस्थिता छिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी अम्बा रौद्रिणी भद्रकाली, बगला ज्वालामुखी वैष्णवी ब्रह्माणे त्रिपुरान्तकी सुरनुता वेदिभ्यमानोज्ज्वला चामुण्डाश्रितरक्षपोढजनती दाक्षायणी वल्लवी चिद्रूपीः परदेवता भगवती श्रीराजराजेश्वरी अम्बा शूलधनुः कुशाङ्कुशधरी वाराही, वाराहीः मधुगैडभ्रमणी वाणीरमासेविता मल्लाद्यसुरमूकदैत्यधमनी माहेश्वरी अम्बिका चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी अम्बा सृष्टिविनाशपालनकरी आर्याविसम्भो विता गायत्री प्रणवाक्षर अमृतासना पूर्णानुसन्धीकृता ओंकारी विनता सुरार्चितपता उद्दण्डदैत्यापहा छिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी अम्बा शाश्वत विनुता, आर्या महादेवता या ब्रह्मादि ब्रह्मादिपिपीलिकान्तजननी या वै जगन्मोहिनी या पञ्चप्रणवादिरेभजननी या चित्कलामालिनी चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी अम्बा भक्तराजमनिषं, अम्बाष्टकम् यः पठेति अम्बालोलकटाक्षभीक्षललितम् ऐश्वर्यमव्याहतम् अम्बापावनमन्त्रराजपठनात् अन्तेश मोक्षप्रदाः चिद्रूपीः परदेवता भगवती श्रीराजराजेश्वरी ॐ Raj वैशाखमासकृष्णायाम् दशमी मन्दवासरे पूर्वभासुजाताय मङ्गलम् श्रीहनुमते गुरुगौरवपूर्णाय फलापूपप्रियाय च नानामाणिक्यहस्ताय मङ्गलम् श्रीहनुमते सुवर्चलाकळत्राय चतुर्भुजधराय च उष्ट्रारूपाय वीराय मङ्गलम् श्रीहनुमते दिव्यमङ्गलदेहाय पीताम्बरधराय च तप्तकाञ्चनवर्णाय मङ्गलम् श्रीहनुमते भक्तरक्षणशीलाय जानकीशोकहारिणे जगत्पावघनेत्राय मङ्गलम् श्रीहनुमते पम्पातीरविहाराय सौमित्रिप्राणदायिने सृष्टिकारणभूताय मङ्गलम् श्रीहनुमते रम्भावतविहाराय सुगत्पातण्टवासिने सर्वलोकैककण्ठ्याय मङ्गलम् श्रीहनुमते पञ्चाननाय भीमाय कालनेमिहराय च कौण्डिन्यगोत्रजाताय जा, मङ्गलम् श्रीहनुमते ओम् प्रतिभटश्चेणिभीषण वरगुणस्तोमभूषण जनिभयस्थानधारणा जगदवस्थानकारण निखिलदुष्कर्मकर्शन निगमसद्धर्मदर्शन जय जय श्री सुदर्शन जय जय श्री सुदर्शन शुभजगद्रूपमण्डना सुरगणत्रासखण्डना शतमखब्रह्मवन्दिता शतपदब्रह्मनन्दिता प्रदितविद्वत्सभक्षिता भदहितबुद्ध्यलक्षिता जय जय श्री सुदर्शन जय जय श्री सुदर्शन पुटतटिज्यालपिञ्ज पृथुतरज्ज्वालपञ्ज परिगतप्रत्नविग्रह भ्रमितप्रज्ञदुग्रह प्रग्रहणाहरण परिजातपण्डित जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन निजपदप्रीतसद्गण निरुपनिःस्पीतषड्गुण निगमनिर्व्यूढवैभव निजभरव्यूहवैभव हरिहयद्वेषिधारणा हरभुरोल्लोषकारण जय जय श्री सुदर्शन जय जय श्री सुदर्शन धनुजविस्तारकर्तन जनितमिश्राविकर्तन धनुजविद्याविकर्तन भजतविद्यानिवर्तन अमरदृष्टस्वविक्रमा समरजुष्टप्रक्रम जय जय श्री सुदर्शन जय जय श्री सुदर्शन प्रतिमुखसिन्धुर पृथुमहाहेति तन्तुर विकटमाजा बहिष्कृत विवृतमाला परिष्कृता पृथुमहायन्त्रतन्त्रिता दृढतया तन्त्रयन्तिता जय जय श्री जय जय श्री सुदर्शना महितसम्पत्सदक्षरा विहितसम्पत्षडक्षरा षडरचक्रप्रतिष्ठिता सकलतत्त्वप्रतिष्ठिता विवितसङ्कल्पकल्पका विबुधसङ्कल्पकम्पका जय जय भुवनेन स्थिरिमयी मया सकलते जयीमया निरवतिस्वाधुचिन्मया निखिलशक्ते जगन्मया अमितविश्वक्रियामया शमितविश्वग्भजामया जय जय श्रीसुदर्शन जय जय श्री सुदर्शन द्विचतुष्कमिदम् प्रभूतसारम् पठताम् वेङ्कटनायकप्रणीतम् विषमेऽभिमनोरथः प्रधावत् न विहन्नेत रथाङ्गतुर्यगुप्ता ओ सदा बालरूपापि विघ्नाद्रिघन्त्री महादन्ति वक्त्रापि पञ्चास्यमान्या विधीन्द्रादिमृग्या गणेशाभिधा मे विधत्तां श्रियम् कापि कल्याणमूर्तिः न जानामि पद्यम् न जानामि गद्यम् न जानामि शब्दम् न जानामि चार्थम् चिदेका षडाश्चाहृदि द्योतते मे मुखान्निस्तरन्ते गिरश्चापि चित्रं मयूराधिरूढं महावाक्यगूढं मनोहारिदेहं महच्चित्तगेहं महीदेवदेवं महावेदभावं भजे लोकपालं पराशक्तिपुत्रं यदा गतामानवामे भवाम्भोधिपारं गतास्ते तदैव इति व्यञ्जयन्ने सिन्धुतीरे यास्ते तमीडे पवित्रम् पराशक्तिपुत्रम् यथाब्धिस्तरङ्गयम् यान्ति तुङ्गाः तथैवापदः सन्निधिम् सेव्यमाने इतीवोर्मिपङ्क्तिर्नृणाम् दर्शयन्तम् सदा भावये हृत्सरोजे गुहन्तम् गिरौ मन्निवासे न लता पर्वते राजते तेऽधिरूढाः इतीव ब्रुवन्ने गन्धशैलाधिरूढः स देवो मुदय मे सदा षण्मुखोऽस्तु महाम्भोधितीरे महापापचोरे मुनीन्द्रानुकूले सुगन्धाख्यशैले गुहाजाम्बसन्तं स्वभासा लसन्तं जनार्तिं हरन्तं शयाहमो लसस्वर्नगेहे नृणां कामदोहे सुमस्तोमसञ्छन्नमाणिक्यमञ्जे समुद्यत्सहस्तार्कतुल्यप्रकाशं सदा भावये कार्तिकेयं सुरेशं रणद्धंस के मञ्जुळेत्यन्तशोणे मनोहारिलावण्यपीयूषपूर्णे मनषट्पदो मे भव सदा मोदतां स्कन्दते पादपद्मे स्वर्णाधिदिव्यम्बरैर्भासमानां कोणत्किङ्गिणी मेखलाशोभमानां लसद्देमपट्टेन विद्योतमानां कटिम्भावे स्कन्दते दीप्यमानां पुलिन्देशगन्यां गनाभोगतुङ्गस्तनालिङ्गनासक्तकाश्मीररागम् नमस्याम्यहं तारकारे तबोरः स्वभक्तावने सर्वदा सानुरागम् विधौ क्लप्तदण्डानि स्वलीलाधृताण्डानि निरस्ते भषुण्डानि द्विषत्कालदण्डानि हतेन्द्रादिषण्डानि जगत्राणशौण्डानि सदा ते प्रचण्डानि श्रये बाहुदण्डानि सदा शारदाः षण्मृगाङ्का यदि स्युः समुद्यन्त एव स्थितताश्चिति सङ्खोज्वलानि सुधास्यन्ति बिम्बाधराणीशसूनो तवालोकये षण्मुखाम्भोरुहाणि विशालेषु कर्णान्त दीर्घेष्व जस्रम् दयास्यन्ति श्रुत्वा दशस्वीक्षणेषु मयीषत्कटाक्षः सकृत्वादितश्चेति भवेत्ते दयाशीलकानामहानिः सुताङ्गोद्भवो मेऽसि जीवेति श्रद्धा जपन्मन्त्रमीशो मुदा जिघ्रते जाने जगद्भारभृद्भ्यो जा जगन्नाथ जा तेभ्यः किरीटोज्ज्वलेभ्यो नमो मस्तकेभ्यः स्फुरदत्नकेयूरहाराभिरामश्च लत्कुण्डलश्री लसद्गण्डभागः कटौ पीतवासः करे चारुशक्तिः पुरस्तन्ममास्तम् पुरारेस्तनूजः इहा जाहि वत्से दिहस्तान् प्रसार्याह्वयात्यादराति शङ्करे मातुरङ्काति समुत्पत्यतातं शयन्तं कुमारं हराश्लिट्टगात्रं भजे बालमूर्तिं कुमारेशसूनो गुहस्कन्दसेनापते शक्तिपाणे मयूराधिरूढ पुलिन्दात्मजाकान्तभक्तात्तिकारिन्ने प्रभो तारकारे सदा रक्षमान्त्वम् प्रशान्तेन्द्रिये नष्टसंज्ञेऽभि चेष्टे कफोद्गारिवक्त्रे भयोत्कम्पि गात्रे प्रयाणोन्मुखे मय्यनाथे तदानीं दूतं दयालो भवाग्रे गुहत्वं कृतान्तस्य दूतेषु चण्डेषु कोपात् दहच्छिन्धिभिन्धीति मां मयूरं समारुह्यमाभैरिति त्वं पुरः शीघ्रम् प्रणम्या सगत्पादयोस्ते पतित्वा प्रसाद्यप्रभु प्रार्थये अनेकवारं न वक्तुं क्षमोऽहं तदानीं कृपाब्धे न कार्यान्तकाले मनागप्युपेक्षा सहस्राण्डभोक्ता त्वया शूरनाम हतस्तारकसिंहवक्त्रश्च दैत्यः ममान्तर्हृदिस्थं मनःक्लेशमेकम् न हंसि प्रभो किं करोमि क्वयामि अहं सर्वदा दुःखभारावसन्नः भवान्दी न बन्धुस्त्वधन्यं न भवद्भक्तिरोधं सदा क्लुप्तबाधं नाशयो मा सुतत्त्वम् अपस्मारकुष्ठक्षयार्षप्रमेघज्वरोन्मादगुल्मादि रोगामहान्तः सर्वे भवत्पत्रभूतिम् विलोक्यक्षणात् तारकारे द्रवन्ते यदि स्कन्दमूर्तिः श्रुतौ स्कन्दकीर्तिः मुखे मे पवित्रम् सदा तच्चरित्रम् करे तस्य कृत्यम् वपुस्तस्य भृत्यम् भक्तिभाजाम् अभीष्टप्रदाः सन्ति सर्वत्र देवाः नृणामन्त्यजानामपि स्वार्थदाने गुहाद्देवमन्यम् न नजाने नजाने। जाने, जाने। कलत्रम् सुता बन्धुवर्गः पशुर्वा नरो बाथ नारी गृहे ये मदीयाः भजन्तो नमन्तस्तुवन्तो भवन्तम् स्मरन्तश्च ते सन्तु सर्वे कुमारा मृगाः दुष्टाः तथा व्याधयो बाधकाये मदङ्गे भवच्छक्तिदीक्षाग्रभिन्नास्तु दूरे विनश्यन्तु ते चूर्णितक्रौञ्चशीला जनित्री च स्वपुत्रापराधं सहेते न किं देवसेनाधिनाथ अहञ्चातिबालो भवान् लोकतातः क्षमस्वापराधं समस्तं महेश नमः केकिने शक्तये नमश्चागतुभ्यं नमः कुक्कुटाय नमः सिन्धवे सिन्धुदेशायतुभ्यं पुनस्कन्दमूर्ते नमस्ते नमोऽस्तु जयानन्दभूमन् जयापारधा जयामोघकीर्ते जयानन्द जयानन्दमूर्ते जयानन्दसिन्धो जयाशेडबन्धो जय त्वम् सदा मुक्तिदानेशसूनो भुजङ्गाख्यवृत्तेन क्लृप्तम् स्तवम् यः पठेद्भक्तियुक्तो गुहम् सम्प्रणम्य स पुत्राणि कळत्रम् धनम् दीर्घमायुः लभेत् स्कन्दसायुज्यमन्ते नरः सहा ॐ शम्भो शिव शम्भो महादेव देवेश शम्भो शम्भो महादेव देव फालावनम् रत्नकिरीटम् पालनेत्रात्रिषादग्धपञ्चेषु कीटं शूलाहतारादिकूटं शुद्धमार्देन्दुचूडं भजे मार्गबन्धुं शम्भो महादेवदेव शिव शम्भो महादेवदेवेशम्भो शम्भो महादेवदेव अङ्गे विराजद्भुजङ्गम् अभ्रगङ्गातरङ्गाभिरामोद्धमाङ्गम् ओङ्कारवाटीकुरङ्गम् सिद्धसंसेविताङ्घ्रिम् भजे मार्गबन्धुम् शम्भो महादेवदेव शिव शम्भो महादेवदेवेशम्भो शम्भो महादेवदेव नित्यञ्चिदानन्दरूपम् निम्भुताशेषलोकेशवैरिप्रदाम् कार्तस्वरागेन्द्रचापम् कृत्तिवासं भजे जाङ्ग्रिवग्निं शम्भो महादेवदेव शिव शम्भो महादेव देवेशम्भो शम्भो महादेवदेव कन्दर्पदर्पघ्नमीशं कालकण्ठं महेशं महाव्योमकेशं कुन्दारपापापदन्तम् सुरेशं कोटिसूर्यप्रकाशं भजे मार्गबन्धुं शम्भो महादेवदेव शिव शम्भो महादेव देवेश शम्भो शम्भो महादेवदेव मन्दारभूतेरुदारं मन्दारकेन्द्रसारं महागौर्यदूरं सिन्धूरदूरप्रचारम् सिन्धुराजाधिधीरम् भजे मार्गबन्धुम् शम्भो महादेव देव शिव शम्भो महादेव देवेश शम्भो शम्भो महादेव देव अप्पय्य यज्वेन्द्रगीतम् स्तोत्र राजम् पठेद्यस्तु भक्त्या प्रयाणे तस्यार्थसिद्धिम् विधत्ते मार्गमध्ये भजम् चाशुतोषम् महेशाः शम्भो महादेव देव शिव शम्भो महादेव देवेश शम्भो शम्भो महादेव देव ॐ विश्वेश्वराय नरकर्णवतारणाजा ज्ञानप्रदाय करुणामृतसागर कर्पूर राजा कर्पूरकुन्दधबलाय जटाथ राजा दारिद्र्यदुःखदहनाय नमः शिवाय लोकोत्तमाय भुजगाधिपकङ्कणाय गङ्गाधराय गजदानवमर्दनाय गौरीप्रियाय शशिपालकलाधराय दारिद्र्यदुःखदहनाय नमः शिवाय भानुप्रियाय भवसागरनाशनाय कामान्तकाय कमलाप्रियपूजिताय नेत्रत्रयाय शुभलक्षणसंस्थिताय दारिद्रदुःखदहनाय नमः शिवाय भक्तप्रियाय भवरोगभजापहाय दिव्याद्रिदिव्यभवनाय गुणार्णवाय तेजोमयाय निखिलागमसंस्तुताय दारिद्र्यदुःखदहनाय नमः शिवाय शर्माम्बराय शबभस्मविलेपनाय फालेक्षणाय मणिकुण्डलमण्डिताय मञ्जीरपादयुगलाय वृषध्वजाय दारिद्र्यदुःखदहनाय नमः शिवाय पञ्चाननाय फणिराज विभूषणाय स्वर्गापवर्गफलदाय महेश्वराय हेमांशुकाय भुवनत्रय वन्दिताय दारिद्र्यदुःखदहनाय नमः शिवाय मुक्ताय यज्ञफलदाय गणेश्वराय गीतप्रियाय वृषभेश्वरवाहनाय मातङ्गचर्मवसनाय महेश्वराय दारिद्रदुःखदहनाय नमः शिवाय रामप्रियाय रघुनाथवरप्रदायाः पुण्याय पुण्यचरिताय सुरेश्वराय नन्दिप्रियाय नगराय सुतप्रियाय दारिद्र्यदुःखदहनाय नमः शिवाय भक्त्याय दुःखदहनाष्टगमीश्वरस्य स्तस्य परप्रेरित परप्रेरितदेहः रुद्रो ददाति अमृतम् इष्टमनन्तलक्षम् ओम् शिवजोस्तनुजास्तु श्रितमन्दारदायिने शिखिवर्यतुरङ्गाय सुब्रह्मण्याय मङ्गलम् भक्ताभीष्टप्रदायास्तु भवरोगविनाशिने राजराजादिवन्द्याय रणधीराय मङ्गलं शूरपद्मादिदयितेय तमिष्टकुलभानवे तारकासुरकालाय जा बालकायस्तु मङ्गलं वल्लीवदनराजीव मधुपायमहात्मने उल्लसन्मणिकोटीरभासुरायास्तु मङ्गलम् कन्दर्पकोटिलावण्यनिधये कामदायिने कुलिशायुधहस्ताय जा कुमारायास्तु मङ्गलं मुक्ताहारलसत्कण्ठराजये मुक्तिदायिने देवसेनासमेताय जा दैवतायास्तु मङ्गलं कनकाम्बरसंशोभिकटये कलिहारिणे कमलापतिवन्द्याय कार्तिकेयाय मङ्गलम् शरकाननजाताय शूराय शुभधायिने शीतभानुसमास्याय शरण्यायस्तु मङ्गलं मङ्गलाष्टकमिदं पुण्यं ये पठन्ति द्विजोत्तमाः ते सर्वे मुक्तिमायान्ति सुब्रह्मण्यप्रसादतः